त्र्यम्बकम् यजामहे यजामहे त्र्यम्बकन् त्र्यम्बकम् यजामहे सुगन्धिगुम् सुगन्धिम् यजामहे त्र्यम्बकन् त्र्यम्बकम् यजामहे सुगन्धिम् त्र्यम्बकमिति त्रि अम्बकम् यजामहे सुगन्धिगुम् सुगन्धिम् यजामहे यजामहे सुगन्धिम् पुष्टिवर्धनम् पुष्टिवर्धनगुम् सुगन्धिम् यजामहे यजामहे सुगन्धिम् पुष्टिवर्धनम् सुगन्धिम् पुष्टिवर्धनम् पुष्टिवर्धनगुम् सुगन्धिगुम् सुगन्धिम् पुष्टिवर्धनम् सुगन्धिमिति सुगन्धिम् पुष्टिवर्धनमिति पुष्टि वर्धनम् उर्वा रुकमिवोर्वा रुकमुर्वा रुकमिवबन्धनाद् बन्धनादिवोर्वा रुकमुर्वा रुकमिवबन्धनात् इव बन्धनाद् बन्धनान्मृत्योर्मृत्योर्बन्धनाद् बन्धनान्मृत्योर्मुक्षीयमुक्षीय मृत्योर्बन्धनात् बन्धनान् मृत्योर्मुक्षीय ृत्यौर्मुक्षीयमुक्षीय <mrityaar>, मृत्यौर्मृज्यौर्मुक्षीय मामृतादमृतान्मा मामृतात् अमृतादित्यमृतात् यो रुद्र रुद्रय रुद्र अग्नाभग्नौ रुद्र य रुद्र आग्नौ रुद्र अग्ना भग्नौ रुद्र रुद्र अग्नौ ययो अग्नौ रुद्र रुद्र अग्नौ यः अग्नौ यः अग्ना भग्नौ य आप्सप्सु यो अग्ना भग्नौ य यो आप्सप्सु य आप्सूय आप्सु य आप्सु अपप्सु योयोः ओप् स्वप्सु य ओषधी स्वोषधिषु योः ओप् स्वप्सु य ओषधीषु योय ओषधी स्वोषधी षु यो रुद्रो रुद्रोय ओषधी ोषधीषु रुद्रः यो रुद्रो रुद्रो यो यो रुद्रोविश्वाविश्वा रुद्रो यो यो रुद्रो विश्वाहा रुद्रविश्वाविश्वा रुद्र रुद्र विश्वा भुवना भुवना विश्वा रुद्रो रुद्रो विश्वा भुवना विश्वा भुवना भुवना विश्वा विश्वा भुवना विवेशा विवेश भुवना विश्वा विश्वा भुवना ुवना विवेश विश भुवना भुवना विवेशम तस् आ विवेशुना विवेशम आवशतस्म तस्म आ विवेश विवेशमद्रा रुद्रा तस् आविवेशा विवेश तस्मै रुद्राय अविवेशेत्याः विवेश तस्मै रुद्राय रुद्राय तस्मै तस्मै रुद्राय नमो नमो रुद्राय तस्मै तस्मै रुद्राय नमः रुद्राय नमो नमो रुद्राय रुद्राय नमो अस्त्वस्तु नमो रुद्राय रुद्राय नमो अस्तु नमो अस्त्वस्तु नमो नमो अस्तु अस्वेत्यस्तु हरिः त्र्यम्बकं यजामहे यजामहे त्र्यम्बकन् त्र्यम्बकम्